श्रीहरये नमः अत एकोनषष्टितमोऽध्यायः राजोवाच यथा हतो भगवता भौमोयेन च ता स्त्रियः निरुद्धाये तदाच्व विक्रमं सार्गधन्वनः श्रीसुख इन्द्रेण हृतच्छत्रेण हृदकुण्डलबन्धुना हृदामराद्रिस्थानेन ज्ञापितो भौमचेष्टितं सभार्यो गरुडारूटप्राज्ञज्योतिषपुरं ययो गिरिदुर्गै शस्त्रदुर्गै जलाज्ञनिलदुर्गमम् उरपासायुतैर्घोरैर्दृटैः सर्वत आवृतं गतया निर्बिभेधाग्रेन् सस्त्रदुर्गाणि शायकैहे चक्रेणाग्निं जलं वायुम् उरपासंस्तधासिना शङ्कनादेन यन्त्राणि हृदयानि मनस्विनां प्रकारां गतया कुर्व्या निर्बिभेदगधादरः पाञ्च जन्यध्वनिं श्रुत्वा युगान्दासि निवीक्षणं मुरशयापञ्च शिरा जलात् त्रिशूलमुद्यरीक्षणो युगान्तसूर्यानलरोचिरुल्भणः ग्रसंस्त्रिलोकीमिव आविद्यशूलं तरसा गरुत्मते निरस्य वक्त्रव्यनधत्स पञ्चभिः सरोदसी सर्वदिशोऽन्तरं महान् आपूरयन्नकटागमावृणोत् तदा पत त्वयि अभितन्त्रिदौजसा मुखेषु तं चापि शरैः अताडयत् तस्मै कदां शोऽपि रुषाव्यमुञ्चतां ताम् आपतन्तीं गताय गतामृते गताक्रजो निर्बिभिते सहस्रधा उद्यम्य भागो न बिदावधो जितस्र शिरांसि चक्रेण लीलया व्यसुः पपादाम्बसि कृत्त शीर्षो निकृत्तशृङ्गो द्रिरिवेन्दर तेजसा तस्यात्मजा सप्तपितुर्वधातुरा प्रतिक्रियामर्ष्टजुषः समुद्यताः ताम्रोऽन्तरिक्षश्रवणो विभावसुर्वसुर्नभस्वा नरुणश्च सप्तमः पीठं सतृष्टिशूलान्यजितेरुलुषोल्भणाः तच्चकूटं भगवान् स्वभार्गणैः अभोगवीर्यस्तिलसश्च कर्तः तान् पीठमुख्यान अनयत्यमक्षयं निकृत्तशीर्षोरुभुजाङ्ग्रिवर्मणः स्वानीकपानाश्च्युतचक्रसायकैस्तथा निरस्तान्नरको धरा सुतः निरीक्ष दुर्मर्षण आस्रवन्मधैर्गचैः पयोधिप्रपवैर्निराक्रमन् दृष्ट्वा सभार्यं गरुडोपरिस्थितं सूर्योपरिष्टात् स्थिद्घनं यथा कृष्णं स तस्मै योधाश्च सर्वे युगवत् स्म व्यव्यधुः तद्भौमसैन्यं भगवान् गदोऽग्रजो विचित्रभाजैर्निशितैशिलीमुखैः निकृत्त भागुरुषिरोद्रविग्रहं सकारदर्ह्येव सताश्वकुञ्जरं यानि योतैः प्रयुक्तानि शस्त्रास्त्राणि कुरुर्ध्वहा हरिस्तान्यश्चिनत्तीक्ष्णैः सरै रेखकशस्त्रिभिः उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् गरुत्मता हन्यमानास् तुण्टभक्षणकैर्गजान् पुरमेवाभिसन्नार्ता नरको युध्ययुध्यथ दृष्ट्वा सैन्यं गरुटनार्दितं स्वकं तं भौमप्रहरत्सक्त्या वज्रप्रतिहतो यतः नाकम्पतयो विद्धो मालाकतयिवद्विभः शूलं भौमोऽश्च्युतं हं तुमादते विततोद्यमः पूर्वमेव नरकस्य शिरोहरिः अपाहरद्गजस्तस्य चक्रेणशुरने मीनां वैकुण्डलं चारुकिरीटभूषणं पभौ प्रदिव्यां पतितं समुज्ज्वल हा हेति साद्वितीषयः सुरेश्वरा बाल्यैर्मुकुन्तं विकिरन्त ईडिरे ततश्य भूकृष्णमुपेत्य कुण्टले प्रतप्तजाम्बूनतरत्नभास्वरे सवै वै जयन्त्या वनमालायार्पयत् प्राचेतसं सत्रमतो महामणिम् अस्थौ विश्वेसं देवी देववरार्चितं प्राञ्जलिप्रणता राजन् भक्तिप्रवणया धिया भूमिरुवाच नमस्ते देवदेवेशङ्खचक्रगदाधरा भक्तेश्चोपात्तरूपाय परमात्मन्नमोऽस्तु ते नमः पङ्गजनापाय नमः पङ्गजमालिने नमः पङ्गजनेत्राय नमस्ते पङ्गजाङ्ग्रये नमो भगवते तुभ्यं वासुदेवाय विष्णवे पुरुषाय आदिबीजाय पूर्णभोताय ते नमः अजाय जनयित्रेष्य ब्रह्मणेन्नन्दशक्तये परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते त्वं वै भो तमो निरोधाय विपर्श्य संवृतः स्थानाय सत्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः अहम्पयो ज्योतिरतानिलो नभो मात्राणि देवात्मन इन्द्रियाणि कर्ता महानित्यकिलं चराचरं त्वयि अद्वितीये भगवन्नयं भ्रमः तस्यात्मजोऽयं तव पातपङ्गजं भीतः प्रपन्नार्तिहरोपसादितः तत्पालयैनं कुरु हस्तपङ्गजं शिरस्य मुष्या किल वाग्भेर्भगवान् भक्तिनम् रयान् दत्वा भयं भौम गृहम् प्राविशत् सकलर्धिमत् तत्र राजन्य कन्यानां षट् भौमा कृदानां विक्रम्य राजव्यो धृषे हरिः त्रम् प्रविष्टं स्त्रियो विमोहिताः मनसा वव्रिरेभीष्टं पतिं दैवोपसाधितं भूयात्पतिरयं मह्यं दाता दधनुमोदत इति सर्वा पृथक् कृष्णे भावेन हृदयं धतुः ताः प्रागिणोद्वारवतीं संसृष्टविरजोऽम्बराः नरयानेर्महाकोशान् रथास्वान्द्रविणमहत् ऐरावतकुलेभांश्च चतुर्दन्तांस्रस्विनः पाण्डुरांश्च चतुःषष्टें प्रेषयामास केशवः गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले पूजितश्रितसेन्द्रेण सहेन्द्राण्या च सप्रियः चोदितोपार्ययोत्पाट्यपारिजातं गरुत्मते आरोप्यसेन्द्रान् विभुतान् पानयत्पुरं, स्थापितः सत्यभामाया गृहोद्यानोपचोपनः अन्वकोर्भ्रमरा स्वर्गात् तद्गन्धासवलम्पटाः यया स आनं यक्रीटकोडिभिः पातौ स्पृशन् अच्युतम् अर्थसाधनं तेन विगृह्यते महानघोऽसुराणां च तमोदिघाट्यताम् अतो मुहूर्तये कस्मिन्नागारेषु ता स्त्रियः यतोपये मे भगवान्स्तावद् रोपधरो गृहेषु तासामनभायै अतर्क्यकृत् निरस्तसां व्याति सयेष्वस्तितः रेमे रामाभिर्निजगाम सम्प्लुतो यदेतरो गार्हकमिकांश्चरन् इत्थं रमा पतिम् अवाप्य पतिं स्त्रियस्ताखा ब्राह्मादयोऽपि न विधुः भी पतवीं यदीयां पेजोर्मुदा विरतमेधिदय अनुराग आसावलोकनवसङ्गमजल्पलज्जाः प्रत्युग्गमासन वरार्हण पादशौ च ताम्बूलविश्रमण बीजनगन्धमाल्यैः केशप्रसारशयनस्नपन उपहार्यैः दासी सता अपि विभोर्विदतु स्म दास्यन्ति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दान् सद्गुरुनाथमहराज की जय